मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं ट्वेण्टि जडभरदरहूगणमिलनं श्रीगणेशाय नमः मुद्गल उवाच सिन्धुदेशाधिपो राजारहूगण इति स्मृतः पूर्वसंस्कारयोगेन ह्यन्तर्निष्ठो बभूवः राजा शान्त्यर्थमत्यन्तं यत्नवा नः प्रापतां न सः ययौ गङ्गासमीपस्थं कपिलाश्रममादराद गौतम्या कूले कुले श्रुतवान् द्विजपुङ्गवाद निर्जगम पुराजा पुरा शिबिकायां समास्थितः गच्छन्मार्गे त्वरायुक्तश्रान्दवाहो महीपतिः धृत्वान्यान्यो जयामासु वाहार्थं स्वजनास्तदा तत्र दैवप्रसङ्गेन समालब्धं महामुनिं आङ्गिरसवरं तं ते चक्रुवार्षकमञ्जसा ज्ञात्वा देहमहायोगी प्रारब्धाधीनमादराद वाको नृपतेर्दक्ष बभूव विगतज्वरः अहिंसापरमो योगिमार्गे जन्तुमवेक्ष्य सः स्वपादक्षेपणं तत्र चकारप्राणिवर्जिते तेन सर्वे बभूवुश्च वाहका मन्दगामिनः दोलायिता च शिबिका तया राजा सुदुःखितः तदक्रोधसमाविष्टो रघुगण उवाच तान् सम्यक् च शिबिकां वाह वहध्वं सुप्रयत्नदः ततो भीताश्च ते सर्वसमूचुरधुना नृप आनीदः यथा चलदिमध्यपः तदो राजा महात्मानमुवाच षट किं त्वया उन्मत्तवद्गतिर्दुष्टा मम सन्निधौ ततो भावि बलेना स वाङ्गिरस उवाचः ज्ञात्वा तं योगमिच्छन्दं पात्रभूतमनादराद जडभरद उवाच मायामयमिदं सर्वं भ्रान्तिरूपमसत्यकं तत्र राजजनानां वै जनः कुत्र स्वयं द्वन्द्वं प्रेषयित्वा समभावेन संस्थिताः शिक्षाकर्ता न भवितास्माकं राजा महाबलः तेन किं योगमार्गं वै त्यक्त्वा तिष्ठेम साम्प्रतं तदधीना भवामः किमज्ञानेन इत्युक्त्वा मौनमास्ताय शिबिकां पूर्ववद्वहन् आङ्गिरसो महायोगी चचालगणपं भजन् राजाश्रुतमहावाक्यं योगग्रन्थिदमुत्तमं भयभेदश्च तेना तेनासा उत्पपादमहीतले दृष्ट्वा तं मलिनं विप्रं यज्ञोपवीदसंयुधम् बिभ्राणं चिरवसनं ब्रह्मतेजःसनातनं प्रणनाम स साष्टाङ्गं कृताञ्जलिपुरस्थितः जगादभयभीतो वै रघुगणः स धर्मविद रहुगण उवाच क्षमापराधमधुलं मम ब्रह्मन् अज्ञानेन कृतं कर्म किं विप्रोऽसि वद स्व माम् अवधूदा महात्मानश्चरन्ति यत्र कुत्र वै तथा त्वमपि मे भासि यज्ञोपविदधारक कभिलक्किं नारदश्चाङ्गिरा पुलहक्रतुः धत्तो वा यज्ञवल्क्यश्च वद मां करुणानिधे अहं बिभेमि विप्रन्दब्राह्मणानामधर्षणाद स ब्राह्मणसमं किञ्चिद्दैवतं सचराचरे साक्षात् परमेश्वरस्यापि तनवो ब्राह्मणा मदाः कर्मधाराश्च ज्ञानानामाधारा ब्रह्मधारकाः ब्राह्मणस्य मुखेनैव यच्छ्रुतं तत्समागतं देवस्थानेषु देवानामुदरेनात्र संशयः ब्राह्मणेभ्यश्च यद्दत्तं तदक्षयपदप्रदम् उद्धाराय जनानां वै ब्राह्मणा सम्मदा किल मन्त्राधीना देवगणमन्त्राभिप्राधीनां देवानां जीवनं सर्वं द्विजाधीनं च तेन वै मन्त्रहीनं च यत्कर्म निष्फलं जायते किल कर्माधीनं जगत्सर्वमतो ब्राह्मणमूलकं कर्मनिष्ठास्तपोनिष्ठाज्ञाननिष्ठा द्विजोत्तमाः योगिनश्च भवन्दितारका जगदि सर्वेषां गुरवोऽ विप्राज्ञानदास्तेन सम्मताः साक्षात् ब्रह्मस्वरूपा वै ब्राह्मणा नात्र संशयः तेषां फेलनमात्रेण पतन्ति शिवमुख्यकाः सेवनेन च तेषां वै सर्वं स लभते जनः ब्राह्मणानां च शापेन विष्णुमुख्या सुरेश्वराः पतिता ह्यवतारेषु पुनः संस्थापिता द्विजैः अदो बिभेमि विप्रेष्य वदकस्त्वं महामदे विष्णुशिवादिदेवेभ्यस्तथान बिभेमि वै एवमुक्त्वा पुनः पादौ गृह्यतं प्रणनाम सः पादपद्मेशिरस्ताप्य रुरोदभयविह्वलः ततोऽसौ करुणाविष्टो जडभरधस्तमब्रवीद उद्प्य नृपशार्दूलं प्रश्रयावनदं वचः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते जड भरद मिलनो नाम विंशतितमोऽध्यायः ओम्